काकः चलति हंसगत्या कस्मिंश्चित् ग्रामे कश्चन वनिक् आसीत् तस्य गृहस्य प्राङ्गणे प्रतिदिनम् एकः काकः का आगत्य तत्र पतितम् उच्छिष्टं खादति स्म वणिजः गृहजनानां सर्वेषां तस्य काकस्य परिचयः आसीत् कदाचित् तत्र केचन हंसाः आगताः ते हंसाः वयं मानस सरोवरात उड्डयनं कुर्वन्तः आगताः इति अवदन् तच्छ्रुत्वा वणिजः गृहस्य बालकः काकं दर्शयित्वा उक्तवन्तः एषः काकः का अपि बहुदूरम् उड्डयते तावदेव न एषः बहुविधान् उड्डयनप्रकारान् जानाति इति तस्य श्रवणेन काकस्य मनसि अहङ्कारः उत्पन्नः सः साभिमानं हंसान् अवदत् सत्यम् अहं तु एकाधिकशादिवतान् उड्डयनप्रकारान् जानामि भवत्सु कस्यचित् तादृशम् सामर्थ्यम् अस्ति चेत् सः मया सह स्पर्धा कर्तुम् अर्हति इति तदा कश्चन हंसः अवदत् भोः काका किञ्चित् का विचिन्त्य वदतु तु मानससरोवरात् उड्डीय आगताः स्मः पक्षिषु वयमेव श्रेष्ठाः भवान्तु तु मन्दः अस्माभिः सह स्पर्धां कर्तुं भवतः सामर्थ्यं कुतः इति परं वणिजः बालकः अन्ये पशुपक्षिणः च तं काकं प्रेरयन् गर्विष्ठः काकः हंसेन सह स्पर्धार्थं सन्नद्धः जातः हंसः काकश्च उड्डयनम् आरब्धवन्तौ अन्ये सर्वे अतः स्थित्वा तयोः प्रोत्साहनं कृतवन्तः केचन तेन काकेन सह किञ्चित् दूरम् उड्डीय तस्य उत्साहं वर्धितवन्तः तस्मात् प्रोत्साहितः काकः का सुसामर्थ्यस्य कौशलस्य च प्रदर्शनाय भिन्नप्रकारेण उड्डयनम् अकरोत् हंसः तु समानगत्या उड्डयते स्म तत् सर्वे चिंतवत ये हमसा पराजय प्राप्न तथ हमसरा मुखा जाता तमेवर का सागर सागरस्य उपरी उड्डयनम आरभत किंतु किंचि कालाभ्यंतरे स्रांत जादूर चाहिए शरीर स्वेद उत्पन्न परिता संपूर्णतया जलराशि दृष्टिः यावत् प्रसारिता चेदपि असीमः जलराशिः दृश्यते स्म तस्मात् भीतः काकः का चिन्तितवान् यत् मम मरणं निश्चितम् अस्मिन् सागरे बहवः जलचराः जीवन्ति ते पतितं मां खादन्ति इति इदानीं तु उड्डयनार्थं तस्य शरीरे शक्तिः एव नासीत् पक्षयोः ऊर्जा समाप्ता श्वासः अवरुद्धः अनन्तो गत्वा काकः पराजयं अङ्गीकृतवान् सः हंसं मम प्राणान् रक्षतु इति प्रार्थितवान् करुणालुः हंसः काकं स्वस्कन्दयोः उपरि स्थापयित्वा प्रत्यागच्छत् काकम् अवतार्य स्वदेशाभिमुखं प्रास्थितवान् च ततः आरभ्य काकः न कदापि अहङ्कारं प्रादर्शयत्